अथ महापुरुषवर्णनं एकदशोध्या महापुषवर्णनम सूर्यव्यूहवर्णनमचनकवाच अथेम पृछामो भव बहुविम समस्तंत्र भवान् भागवतत्त्ववित् तान्त्रिकाः परिचर्यायाम् केवलस्य श्रियः पतेः अङ्गोपाङ्गायुधा कल्पम् कल्पयन्ति यथा च यैः तन्नो वर्णय भद्रं ते क्रियायोगम् बुभुत्सताम् येन क्रिया नैपुणेन मर्त्यो यायादमर्त्यताम् सूत कृत्य गुरून्वक्ष्ये विभूतीर्वैष्णवीरपि या प्रोक्ता वेदतन्त्राभ्यामाचार्यैः पद्मजादिभिः मायाज्यैर्नवभिस्तत्त्वैः स विकारमयो विराट् निर्मितो दृश्यते यत्र सचित्के भुवनुत्रयम् एतद्वै पौरुषम् रूपम् भूः पादौ द्यौः शिरो नभः नाभि नासे वायु कर्ण दिश प्रभो प्रजापति प्रजननमृतुरीशि तबाहव लोकपन चन्द्रो भ्रुवौ यमः लज्जोत्तरो लो भू दन्ताज्योत्स्नास्मयो भ्रमः रोमाणि भूरुहा भूम्नो मेघाः पुरुषमूर्धजाः यावानयं वै पुरुषो यावत्या संस्थयामितः तावानसावपि महापुरुषो लोकसंस्थया कौस्तु भव्यपदेशेन प्रभाव्यापिनी साक्षात् श्रीवत्समुरसा विभुः स्वम् मायाम् वनमालाभ्याम् नानागुणमयीम् दधत् वासश्छन्दोमयम् पीतम् ब्रह्मसूत् त्रम् त्रिवृत्स्वरम् बिभर्तिसाङ् ख्यम् योगम् देवो मकरकुण्डले मौलिम् पदम् पारमेष्ठ्यम् सर्वलोकाभयङ्करम् अव्या कृतमनन्ताख्यमासनम् यदधिष्ठितः धर्मज्ञानादिभिर्युक्तम् स त्वम् पद्ममिहोच्यते ओजः सहो बलयुतम् गदाम् दधतु। अपां तत्त्वम् दरवरम् तेजस्तत्त्वम् सुदर्शनम् नभोनिभम् नभस्तत्त्वमसिम् चर्मतमोमयम् कालरूपम् धनुःशार्ङ्गम् तथा कर्ममयेषुधिम् इन्द्रियाणि शरानाहुराकूतीरस्यन्दनम् तन्मात्राण्यस्याभिव्यक्तिम् मुद्रयार्थक्रियात्मताम् मण्डलम् देवयजनम् दीक्षासंस् कार आत्मनः परिचर्या भगवत आत्मनो दुरितक्षयः भगवान्भगशब्दार्थम् लीलाकमलमुद्वहन् धर्मम् यशश्च भगवान् चामर्व्यजने भजतु आतपत्रम् तु वैकुण्ठम् द्विजाधामाकुतोभयम् त्रिवृद्वेदः सुपर्णाख्यो यज्ञम् वहति पूरुषम् अनपायिनी भगवती श्रीः साक्षादात्मनो हरेः विश्वक्सेनस्तत्रमूर्तिर्विदितः पार्षदाधिपः नन्दादयोष्टौ द्वाः स्थाश्च तेणिमाद्या हरेर्गुणाः वासुदेवः सङ्कर्षणः प्रद्युम्नः पुरुषः स्वयम् अनिरुद्ध ज्ञस्तुरीयैति वृत्तिभिः अर्थेन्द्रियाशयज्ञानैर्भगवान्परिभाव्यते अङ्गोपाङ्गायुधा कल्पैर्भगवांस्तच्चतुष्टयम् बिभर्ति स्म चतुर्मूर्तिर्भगवान् हरिरीश्वरः द्विजरुषभस एष ब्रह्मयोनिः स्वयन्दृक् स्वमहिमपरिपूर्णो मायया च स्वयैतत् सृजति हरति पातीत्याक् ख्ययानावृताक्षो विवृत इव निरुक्तस्तत्परैरात्मलभ्यः श्रीकृष्णकृष्णसखवृणषभावनिधृगु राजन्यवंशदहनानपवर्गवीर्य गो विन्दगोपवनिताव्रजभृत्यगीततीर्थश्रवः श्रवणमङ्गलपाहि भृत्यान् य इदम् कल्य उत्थाय महापुरुषलक्षणम् तच्चित्तः प्रयतो ब्रह्म वेदगुहाशयम् शौनक शुको यदाह भगवान् शृण्वते सौरो गणो मासि नानावसति नानावसतिसप्तकः तेषाम् नामानि कर्माणि संयुक्तानामधीश्वरैः ब्रूहि नः व्यूहं व्यूहम् सूर्यात्मनोहरेः सूत उवाच अनाद्यविद्ययाविष्ट नोरात्मनः सर्वदेहिनाम् निर्मितो लोकतन्त्रोऽयम् लोकेषु परिवर्तते एक एव हि लोकानाम् सूर्य आत्मादिकृद्धरिः सर्ववेद क्रियामूलं ऋषिभिर्बहुधोदितः कालो देशः क्रियाकर्ता करणम् कार्यमागमः द्रव्यम् फलमिति ब्रह्मन् नवोक्तो जया हरिः मध्वादिषु द्वादशसु भगवान्कालूपतोकतंत्रयचर पृथ्द्वादशिर्गण धाता हे। हेतिसुकथकृन्मुने त्यस्तुम्बुरुरिति मधुमासं नयन्त्यमी अर्यमापुलहोथौ जाः प्रहेतिः पुञ्जिकस्थली नारदः कच्छनीरश्च नयन्त्येते स्म माधवम् मित्रो त्रिः पौरुषेऽथ तक्षको मेनका हाः हा। रथस्व नैतिह्येते शुक्रमासं नयन्त्यमी वसिष्ठो वरुणो रम्भा सहजन्यस्तथाहुः शुक्रश्चित्रस्वनश्चैव शुचिमासं नयन्त्यमी इन्द्रो विश्वावसुः श्रोता एलापत्रस्तथा गिराः प्रम्लोचाराक्षसो वर्यो न भृगुः अनुम्लोच शङ्खपालो नभस्याख्यम् नयन्त्यमी पूषा धनञ्जयो वातः सुषेणः सुरुचिस्तथा घृताची गौतमश्चेयेति तपोमासं नयन्त्यमी क्रतुर्वर्चा भरद्वाजः पर्जन्यः सेनजित्तथा विश्व ऐरावतश्चैव तपस्याख्यं नयन्त्यमी अथांसुः कश्यपस्तार्क्ष्य ऋतसेनस्तथोर्वशी विद्युच्छत्रुर्मशङ्खः स होमासं नयन्त्यमी भगः स्फूर्जोरिष्टनेमिरूर्न आयुष्ट च पञ्चमः कर्कोटकः पूर्वचित्तिः पुष्यमासं नयन्त्यमी त्वष्टा रुचीकतनयः कम्बलश्च तिलोत्तमा ब्रह्मापेतोऽथ शतजिद् धृतराष्ट्र इषम्भराः विष्णुरश्वतरोरम्भासूर्यवच्चाश्च सत्यदितु विश्वामित्रोमघापेत ऊर्जमासं नयन्त्यमी एता भगवतो विष्णोरादित्यस्य विभूतयः स्मरताम् सन्ध्ययोर्नॄणाम् हरन्त्यंहो दिने दिने द्वादशस्वपि मासेषु देवोऽसौ वै चरन् समन्तात्तनुते परत्रेह च सन्मतिम् सामर्ग्यजुर्भिस्तल्लिङ्गैः ऋषयः संस्तुवन्त्यमुम् गन्धर्वास्तम् प्रगायन्ति ्यन्ति त्यप्सरसोग्रतः उन्नह्यन्ति रथम् नागा ग्रामण्यो रथयोजकाः चोदयन्ति रथम् पृष्ठे नैरृता बलशालिनः लखिल्याः सहस्राणि षष्टिर्ब्रह्मर्षयोमलाः पुरतोऽभिमुखम् यान्ति स्तुवन्ति स्तुतिभिर्विभुम् एवम् ह्यनादिनिधनो भगवान कल्पे कल्पे भगवाहरी कल कल स्वूह्यलोकानवद्भागवते महापुराणे पारमहंसिया संहितायादशस्कंधे एक